निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा एते ख्यातादनोर्वंशे दानवाः परिकीर्तिताः अन्यौ तु खलु सूर्याचन्द्रमसौ स्मृतौ अन्यौ दानवमुख्यानाम् सूर्याचन्द्रमसौ तथा इमे च वंशाः प्रथिताः सत्त्ववन्तो महाबलाः दनुपुत्रा महाराज दशदानवंशजाः एकाक्षोमृतपावीरः प्रलम्बनरकावपि वातापीशत्रुतपनः शठश्चैव महासुरः